भगम् मानो मानोक्षन्तमुदमानमुक्षितम् माना मानावजेत् पितरम् मोदमातरम् प्रजामानस्तनवो रुद्ररीरिणः मानस्तोगेतनयेमानायुषमानो गोमानोऽः एन्मानोरुद्रभामितोपहेदो नवसा विधेमते प्रजापते नान्यन्या विश्वा जातानि परिता बभूव यत्कामास्ते युगमस्तन्नास्तु वयज्ञस्य मृदयोदयीना स्वस्थिता पुनः मृतो वशी विषयेन्द्रः पुरगे पुनः स्वस्थिताभयङ्करः यजामहे तुगन्धिम् वृक्ष्यबद्धकमिव बन्धान् मृत्योन्मुखीयमामृता एतेनयम्पाजामृत्यामृत्याय हन्तयज्ञस्य मारया ेवगतस्येन वैलनमधिस्वाहागृतस्येन वैलनमधिस्वाहानो वैलनमधिस्वाहा आत्मगतस्येन तो वेलनमधिस्वाहा अन्यकृतस्य वेलनमधिस्वाहास्मकृतस्येन वैलनमधिस्वाहा यद्दिवा जनक्षञ्जयिनस्य कर्मणस्य वैलनमधिस्वाहा यत् स्वतन्त्रस्य यार्कषष्ठेनश्च क्रमदस्या वेदनमधिस्वाः यत् चतुर्थश्चजाकषष्ठेनश्च क्रमदस्या वेदनमधिस्वाहा यद्विद्वागम् षष्टाविद्वागम् षष्ठेनश्च क्रमदस्या वेदनमधि स्वाहा वेदनमधिस्वाः यद्वो देवाश्च क्रमजत्वया गुरुमनसो वायवेदेवम् योक्षिणाय देतस्मिन्धेतन दे दे स्वाहा कामोगारिभेरन्नमो नमः कामोकारिभे कामः करोति नाहङ्करोमि कामः कर्ता नाहम् कर्ता कामः कारयिता अहङ्कारयिता य कामकामाय स्वाहा मन्यकारिभेयन्नमो नमः मन्येन्मन्यः करोहङ्करो मन्यः कर्ता नाहङ्कर्ता मन्यः कारयता नाहङ्कारयतायणदे स्वाहाञ्जहोमिधताग् समिष्टाङ्गर्धारमुतेरमन्द स्वाहा रामो हिरण्यम् धनपन्नपानगम् सर्वेणागशिरे स्वाहा श्रियम् च लक्ष्मीम् च पुष्ट्यम् च कैर्त्यम् चुण्यताम् ब्रह्मण्यम् बहुत्रदा श्रद्धा मेधे प्रजाः सन्ददा त स्वाहाला कृष्णास्तिला श्वेतास्तिलाः सौम्यावशानुगाः इलाः पुनन्तु मे पापय्यक्किञ्चिद्विदम् मये स्वाहा चोरस्यान्नम् नवः श्राद्धम् ब्रह्म गुरुतल्पकः ब्रह्मण्यम् बहुपुक्त श्रद्धा मे धे प्रज्ञादजातवेदः सन्दरादु स्वाहा प्राणाबाणव्यानोदानसमाना मे शुभ्यन्ताम् ज्योतिरहम् व्यजनाविव आत्मा भूयाशग्स्वाहास्रोतरिक्ष्पाख्याणयेतो बुद्ध्याकोलिः सङ्कल्पा मे शुध्यन्ताम् ज्योतिरहम् व्यजनाविव आत्मा भूयाशग्स्वाहा मेतो त्वक्कर्ममागम् सरश मे नो मज्जास्नायवो स्थीय मे शुध्यन्ताम् योजिरहम् विरजाविव आत्मा भूयाजस्वाहा शिरःपाणिपादपादरशङ्घतृष्णोपस्थपायवशुध्यन्ताम् योजिरहम् विरजाविव आत्मा भूयाशग्ग्रस्वाहा उत्तिष्ठपूर्णहृक्षिदेहिलेहिललाभैलामे शुध्यन्ताम् ज्योतिरहम् विरजाविव आत्मा भूयाशग्स्वाहा पृथिव्यापस्थेजो वायुरागासामे शुध्यन्तान् योजनहम् मिलजामि वा आत्मा भूयाजग्रस्वाहा शब्दस्परिचलोपगणसामे शुध्यन्तान् योजनहम् मिलजामि वा आत्मा भूयाजस्वाहा मनोवाक्कार्यगम् माणि मे शुध्यन्तान् योजनहम् मिलजामि वा आत्मा भूयाजज्ञस्वाहा अव्यक्तभावेरहङ्कारेर्ज्योतिरहम् मिलजामि वा आत्मा भूयाजग्रस्वाहा आत्मा <asthma> मे शुभ्यन्ताञ्जोजरहम् विरजामि वा आत्मा भूयाजज्ञस्वाहा अन्तरात्मा मे शुभ्यन्ताञ्जोजरहम् विरजामि वा आत्मा भूयाजज्ञस्वाहा परमात्मा मे शुभ्यन्ताञ्जोजिरहम् विरजामि वा आत्मा भूयाजज्ञ स्वाहा ेषामलक्ष्मीर्नाशगाम्यहम् अहो लभ्यम् चान्यम् वनमेवात्मानज्ञस्वाहा अन्नमयप्राणमय मनोमयविज्ञानमयमानन्दमयमात्मा मेरुभ्यन्ताञ्जोराम् विरजामिव आत्मानो याज्ञ स्वाहा अर्णये स्वाहा विश्वेभ्यो देवेभ्यस्वाह ध्रुवाय भौमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा अग्निये कृते स्वाहा धर्मा यस्वाहा अधर्मा यस्वाहा अद्भ्यस्वाः ओषविवनस्पदेभ्यस्वाः रक्षोदेवजनेभ्यस्वाः गृह्याभ्यस्वाहा अवधानेभ्यस्वाहा अवधानपदेभ्यस्वाहा सर्वभौदेभ्यस्वाहा स्वाहा अन्तरिक्षाय स्वाहा स्वाहा अन्तरिक्षाय स्वाहा स्वाहा सूर्याय स्वाहा चन्द्रोदे स्वाहा नक्षत्रेभ्यस्वाहा इन्द्राय स्वाहा बृहस्पतके स्वाहा प्रजापदके स्वाहा स्वाहाभ्यः स्वाहा नमो रुद्रादये स्वाहा देवेभ्यः स्वाहाभ्यस्वधास्तु भूतेभ्यो नमः मनुष्येभ्यो हन्ताः प्रजापदके स्वाहा परमेक्षिणे स्वाहा यथा कोपश्च सहस्रधारोक्षिरः साथ एवामे अस्तु सहस्रधारमक्षिरम् धनधान्ये स्वाहा साथ हे भूताः प्रदरन्ति प्रेष्याः तेभ्यो बलिम् पुष्टिकामो हरामवे वृष्टिम् पुष्टिमजन्तधारु स्वाहा ओम् नद्ब्रह्माद्वायुः ओम् तदात्मा त्यम् ओम् तत्सर्वम् ओम् तत्पुरोनवः अन्तश्चरति भोजेषु गुहायाम् विश्वमूर्तिषु वैयज्ञस्कम् वयट्कारस्त्वमिन्नस्तकम् वृद्रस्तम् विष्णस्तम् ब्रह्मत्वम् प्रजापते अन्तदा महापोहज्योतिरसोम्रह्मभोद्भवस्वम् श्रद्धायाम् प्राणेन विष्टामदम् श्रद्धायाम पानेन विष्टो अमृतम् जहोमि श्रद्धायाम् यानेन विष्टो अमृतञ्जहोमि श्रद्धायाम दानेन विष्टो अमृतम् जहोमि श्रद्धायां समानेन विष्टो अमृतञ्जहोमि ब्रह्मणि म आत्मामधत्त्वाय अमृतामस्वरणमधि श्रद्धायाम् प्राणेन विष्टो अमृतम् जहोमि शिवोमाविशामृदाहाय प्राणा श्रद्धायामपानेन विष्टो मृतम् जहोमि शिवो मा विशाप्रदाय अपानायस्वाः श्रद्धायाम् ज्ञानेन विष्टो मृतम् जहोमि शिवो मा विशाप्रदाय ज्ञाना यस्वाः श्रद्धायामुदानेन विष्टो मृतञ्जहोमि शिवो मा विशाप्रदाय शिवोमाविषाप्रदाय समानाय स्वाहा ब्रह्मणि महात्मापदत्ताय अमदामिषानमहे श्रद्धायाम् प्राणेन विश्यामतकम् हुतम् प्राणवन्नेनाप्यायस्व श्रद्धायामपाणेन विश्यामतकम् हुतम् अपानवन्देनाप्यायस्व श्रद्धायाम् यानेन विश्यामतकम् हुतम् यानमन्नेनाप्यायस्व श्रद्धायामुदानेन विश्यामृतगम् हुतम् उदानवन्नेनाप्यायस्व श्रद्धायागुसमानेन विश्यामृतकम् हुतम् समानमन्नेनाप्यायस्व अङ्गुष्ठवाद्रः पुरुषोऽङ्गुष्ठम् च तमाश्रितः एषः सर्वस्य जगदप्रभुप्रेणादिविश्रभुग वाङ्महासन् रसा प्राणः अक्षाश्च कर्णजात्रम् नमस्ते ्यङ्गायोः नमस्तेऽस्तु मायस्वर्णापुरेन्द्रम्नाः मोक्षस्मारस्रोमा विशान्त नमो रुद्राय विष्टमे वृत्तम् मे पाहि तेद्यमा सुरक्षमभ्यस्तमस्पनश्वरेभ्यस्तम् नृणान्द्रुपदेजाय जयष्वेन मेघन्धिष्ठस्त्वशनेन मेघन्ध्यभोजेन मेलन्ध्यमवत्केन मेलन्धिष्ठश्वस्व यज्ञस्य अध्यमृदन् जिष्ठस्थोपदेयज्ञणपदेन महा सत्यम् परम्परगुम् सत्यगम् सत्यै सुवर्गान् लोकाच्य मन्दे घटाधृशता सत्यम् तस्मात् सत्येन मन्द्रे तमैधितपो नाम परङ्गद्धि परन्तमस्तदुद्धर्षम् तद्दुराभर्षम् तस्मात्तमशिल मन्दे तमै दिनयदम् ब्रह्मचारिणस्तस्मात्तमेन मन्द्रे शमैत्यरण्ये मियस्तस्माच्छमेन मन्द्रे धानमिति सर्वाणि भूतानि प्रचगम् सन्ति जानान् न्द्रमा धानेन मन्दे धर्मेण धर्मन्दस्मा धर्मेण वन्दे प्रजनयस्मात् भूयष्ट प्रजायन्देरस्मात् भूयष्ठा प्रजनने रमन्ते अग्नित्याहरस्मादग्नयाग्निहात्र हरस्मादग्निहात्रे रमन्ते यज्ञैः यज्ञोभिदेवास्तस्माद्य न्ते मानसमिति विद्वागुम् सस्तस्माद् विद्वागम् स एव मानसे लमन्तेऽन्यासवि ब्रह्मा ब्रह्मादिवरः परोगि ब्रह्मा तानि वागम् सन्न्यास एवाच एवम् वेदेत्युपरितरे जापत्यो हारुणस्तु वर्णेण प्रजापतिम्पसारिम् भगवन्तः परमं वदन्ति नित्योरोचते सर्वम् प्रतिष्ठिदन्दस्मा सत्यं परमं वदन्ति तव सा देवा देवतामग्रान्तराधे तव सर्वम् प्रतिष्ठिदन्दस्मा परमं वदन्ति यमेण ब्रह्मचारिणस्वर्गच्छान्ताशिरमादरन् विशमेन नागं मुणजो तिष्ठन्तस्मा परमं वदन्ति दाने यज्ञा दक्षिणा लोके दाता रघुं सर्वभूतान्यपजीवन्ति दाने आरादेन द्विषन्ता भवन्ति दाने सर्वं प्रतिष्ठिदन्तस्मा दानं परमं वदन्ति धर्मा विश्वश्च जगदः प्रतिष्ठा लोके धर्मेष्टं प्रजा उपसर्पन्ति धर्मेण पापमपनुदति धर्मे सर्वं प्रचक्षि धर्मं परमं वदन्त्य प्रजनम् वै प्रतिष्ठा लोके साधु प्रजायान्त्यग्नयो वेत्रये विद्यादेवयां कृन्तरिक्षं वामेव्य सामधुर्गोक्तस्माग् न्तज्ञा भवन्ति यज्ञै सर्वं परमं वदन्ति मानसं मनसा मानसाभ्य प्रजान्तमानसे सर्वं प्रदेक्षिलन्तस्मात् मानसं परमं वजन्ति न्यासै्या ब्रह्माणम् ब्रह्माभिष्टम्भ प्रजापरिसंवत्सरिोदयेषा विद्ये पुरुडस्तपरमेष्ठे ब्रह्मात्मायाभिराजित्यस्तभिः पद्यन्यो पञ्जन्येन प्रजायन्तोढदिवनस्पदन्नम् भवत्यन्नेन प्राणा प्राणे बलं बलेन श्रद्धा श्रद्धया मेधा मेधया मनीशामनीषामनामनसा शान्तिश्रान्त्या चित्तम् चित्तेन स्मृतज्ञस्मृत्या स्मारग्यस्मानेन विज्ञानम् विज्ञानेन आत्मानं वेदैतस्मादन्नन्त सर्वाः प्राणा भवन्ति प्राणेर्मदश्च विज्ञानम् विज्ञानादानन्ता ब्रह्मयोनिश्च पुरुण पञ्चधा पञ्चात्मारेण सर्वमिदम् ब्रदम् पृशवेदान्तरिक्षञ्जल्यौष्टावान्तरविषाक्षवे सर्वमिदं च ज्ञात श्रद्धालच्च हृता च भूयान् भक्त्यमपया हि प्राणे त्वमसिरन्धादा ब्रह्मो मेत्यां वैरब्रह्मणा महिमानमाप्नो ब्रह्मणा झाल झाल झाल झाल प्राणमुद्गाध्वर्येदानय <Sessimus> विषत्युत्तिष्ठानमिदं यत् प्रात सायञ्जतानि समनानि वचुबन्धां वत्सराश्चपरिवत्सराश्चेहर्गणा सर्ववेदनं एतच्छं विद्वान् जगणे प्रमेयते देवानामेव महिमानं गत्वा नित्यश्रजायुज्यं गच्छात्यक्षिणे प्रमेयदे विरणामेव महिमानं गत्वा चन्द्रमयसात्रेतो वेधोचन्द्रमसात् महिमानो ब्राह्मण विद्वानभिजयतिरस्मा प्नोति तस्मात् ब्रह्मणाद्यपनिषत् सह न भवतो सह नो भुणक्तो सह वीर्यङ्कलवामहे एकस्मिन् अवधीतमस्तु माविद्विषामहे ओम् शान्तिः नमो यदा स्वाद्रभ्रामहि पात्रानुजामाध्याम ब्रह्मप्रामायष्पदन्न ओम् शान्तः शान्तः हरिः ओ आरण्यः समाप्तः